राधे राधे राधे राधे राधे राधे ब्रह्मेश्वरादिसुदुरुः पदरविन्द श्रीमत्पराग परमाद्भुतवैभवायाः ब्रह्मेश्वरादि सुदुरोहपदारविन्द श्रीमत्पराग परमाद्भुतवैभवायाः सर्वार्धसाररसवर्षिकृपार्द्रदृष्टेः तस्या नमोऽस्तु वृषभानुभुवो महिंने सर्वार्धसारसवर्षिकृपार्द्रदृष्टेः तस्या नमोऽस्तु वृषभानुभुवो महिम्ने राधे राधे राधे राे